इष्टम् दत्तमधीतम् च यज्ञाश्च बहुदक्षिणाः सर्वमेतदपत्यस्य कलाम् नार्हन्ति षोडशीम् व्रतोपवासैर्बहुभिः कृतं भवति भीष्मयत् सर्वम् तदनपत्यस्य मोघम् भवति निश्चयात् सोऽनपत्यश्च वृद्धश्च मिथ्या धर्मानुसारकः हंसवत् प्राप्नुयावधम् एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा भीष्म यत्तदहं सम्यग् वक्ष्यामि तव शृण्वतः वृद्धः किल समुद्रान्ते कश्चिद्धं सोऽभवत्पुरा धर्मवागन्यथा वृत्तः पक्षिणः सोऽनुशास्ति च धर्मं चरतमाधर्ममिति तस्य वचः किल पक्षिणः शुश्रुवुर्भीष्म सततं सत्यवादिनः अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ते च तस्य समभ्यासे निक्षिप्याण्डानि सर्वशः समुद्राम्भस्य मज्जन्त चरन्तो भीष्मपक्षिणः तेषामण्डानि सर्वेषाम् भक्षयामासपापकृत् सहंसः सम्प्रमत्तानामप्रमत्त सह स्वकर्मणि ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोपरः अशङ्कतमहाप्राज्ञः स कदाचिद्दर्शः ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् तेषाम् परमदुःखार्थ सपक्षी सर्वपक्षिणाम्